एवति एवद् दशकम् रेवती बलरामकल्याणम् त्रिदशवद्दगिवदितकौशलो त्रिदशदत्त समस्तविभूतिम जलति मध्यगतम् त्वमभूषयो नवपुरं वपुरञ्चितरोचिष ददुषिरेवत बूभृतिरेवतीम् अलभृतेतनया विदि चासनाद् महितमुत्सवगोषमभूपुष समुदितैर्मुदितै सगयाधवै अथ विदर्भसुताम् ीम् प्रणयिनीम् त्वयि देवसहोदर स्वयमदिसत चेति मही भुजे स्वतमसा तमसा दुमोपाश्रयन् चिरधृत प्रणया त्वयि बालिका सबदिकाङ्क्षितपङ्कसमाकुल तव निवेदयितुम् द्विजमादिशत् स्वगदनं गदनम् कविनिर्मितम् विजसुतोऽपि च पूर्णमुपाययो तव पुरम् चिदुरा च दुरासतम् मुदमवाप भवता भवतापहृदा सच्च स चमोचतकुंटिने नृपसुता कलुराजतिसुकया निजीरत रहितया हितया प्रस््य तव हृतास्मि पुरैव गुणैरखम् हरति माम् किल चेदिनृबोधुना अयि कृपालय पालय मामि ते जगते कपते तया अचरणाम् यदि माम् सपति जीवितमेव जहाम् यहम् इति गिरासुतनोरतनोद्भृशम् सुहृदयम् हृदयम् तव कातरम् अकथयस्त्वमतै न मये सखे दतति का मम मन्मतवेदना नृभसमक्षमुपेत्यहराम् यहम् ददयिताम् दयितामसिते क्षणाम् प्रमुदिते न च तेन समम् तथा हृदगतो वितनुताम् तनुताम् निखिलापदा